नारदपुराणम् पूर्वार्थम् अध्यायम् 17 ऋषय ऊचुः साधु शूत महाभागत्वयादिकरुणात्मना श्राविदं सर्वपापघ्नम् गङ्गामाहात्म्यमुत्तमम् श्रुत्वा दु गङ्गामाहात्म्यम् नारदो देवदर्शनः किम् पप्र च पुनःसूदसनकम् मुनिसप्तमम् सूद उवाच शृणुध्वमृषयः सर्वे नारदेन सुरर्षिणा पृष्ठम् पुनर्यथा प्रवक्ष्यामि। तथैव तद नानाख्यानेदिहासाढ्यं गङ्गामाहात्म्यमुत्तमं श्रुत्वा ब्रह्मसुदो भूयः निदमादराद नारद उवाच अहोदि धन्यं सुकृतैकसारम् श्रुतं मया पुण्यमहृषं पुण्यमसंवृतार्थं गाङ्गेयमाहात्म्यमखप्रणाशित्वत्तो माहा मुने कारुणिकादभीष्टम् ये साधवः साधु भजन्ति विष्णुं स्वार्थं परार्थं च यतन्त एव नानोपदेशैः सुविमुग्धचित्तं प्रबोधयन्ति प्रसभं प्रसन्नं तदः समाख्याहि हरिर्व्रतानि कृतैश्च यैः प्रीतिमुपैदिविष्णुः ददातिभक्तिं भजतां दयालुर्मुक्तिस्तु तस्या विददाहि दासी ददादिमुक्तिम्भजदां मुकुन्दो मुकुंतो व्रतार्चनध्यान महां प्रयासं विमृश्य कस्यापि न भक्तियोगम् प्रवृत्तं च निवृत्तं च यत्कर्महरिदोषणम् तदाख्याहि मुनिश्रेष्ठ विष्णुभक्तोऽसि मानद सनक उवाच साधु साधु मुनिश्रेष्ठभक्तस्त्वं पुरुषोत्तमेः भूयो भूयो यध पुच्छेच्चरित्रं शार्ङ्गधन्वनः प्रतानि ते प्रवक्ष्यामि लोकोपकृतिमन्दिज प्रसीददि हरिर्यैस्तु प्रयच्छत्यभयं तथा यस्य प्रसन्नो भगवान्यज्ञलिङ्गो जनार्दनः इह मुत्रसुखं तपो गृद्धिश्च जायते येन केनाप्युपायेन हरिपूजापरायणाः प्रजान्ति परमं स्थानमिति प्राहुर्महर्षयः मार्गशीर्षे सिदे द्वादश्यां जलशायिनम् उपोषितोर्चयेत्सम्यग् नरः नरश्रद्धा समन्विदः। स्नात्वा सुक्लाम्भरधरो दन्तधावनपूर्वकं गन्धपुक् चिकाक्षतैर्गन्धपुष्पाक्षतैर्धूपैर्दीपैर्नैवेद्यपूर्वकैः वाग्यदो भक्तिभावेन मुनिः श्रेष्ठार्चयेद्धरिं केशवाय नमस्तुभ्यमिति विष्णुं च पूजयेद् अष्टोत्तरशतं हुत्वा वह्दतिलाहुदीः रात्रौ जागरणं कुर्या चालग्रामसमीपतः स्नापयेत्प्रस्त प्रस्तपयसा नारायणमनामयं गीधैर्वाद्यैश्च नैवेद्यैर्भक्ष्यैर्भोज्यैश्च केशवम् त्रिकालम् पूजयेद्भक्त्या महालक्ष्म्या समन्वितम् पुनः कल्ये समुद्धाय कृत्वा कर्म यथोचितम् पूर्ववत्पूजयेद्वेवं वाग्यदो नियतः शुचिः पायः संकृतः सम्मिश्रम् नालिकेरफलान्वितम् मन्त्रेणानेन विप्राय दद्याद्भ्र्याः सदक्षिणं केशवक् केशिः देवः सर्वसम्पत्प्रदायकः परमान्नप्रदानेन मम स्यादिष्टदायकः ब्राह्मणान् भोजयेत्पश्चाचक्रितो बन्धुभिः सह नारायणपरो भूत्वा स्वयं भुञ्जीदवाग्यदः यदि ह्यः कुरु देहक्रिया केशवार्चनमुत्तमं स पौण्डरीकयज्ञस्य फलमष्टगुणं लभेद पौषमासेसिदे पक्षे द्वादश्यां समुपोषिदः नमो नारायणा यदि पूजयेत् प्रयदो हरिं पयःसा स्नाप्य नैवेद्यं पायसं च समर्पयेद् रात्रौ जागरणं कुर्यात्रिकालार्चनतत्परः धूपैर्दीपैश्च नैवेद्यैर्गन्धैः पुष्पैर्मनोरमैः तृणैश्च गीतवाद्याद्याैस्तोत्रैश्चाप्यार्ययेद्धरिं कृशरान्नं च विप्राय दद्यात् सकृदक्षिणम् सर्वात्मा सर्वलोके शर्वव्यापी सनातनः नारायणप्रसन्नः स्यात्कृशरान्नप्रदान्नदः मन्त्रेणानेन विप्राय दत्त्वा वैदानमुत्तमं द्विजांश्च भोजये चक्रिया स्वयमद्यात् सबान्धवः एवम् पूजयेद्भक््रिया देवं नारायणम् प्रभुम् अग्निष्टो माष्टकफलम् सम्पूर्णमवाप्नुयाद माघस्य शुक्लद्वादस्य पूर्ववत् समुपोषिदः नमस्ते माधव येदि उत्वाष्टौ च पूर्वमानेन पयः स स्नापयेन्माधवं तदा पुष्पगन्धाक्षतैरार्चेत् सावधानेन चेतसा रात्रौ जागरणं कुर्यात् पूर्ववद्भक्ति संयुधः कल्यकर्मज निर्वर्त्य पुनरर्चयेद प्रस्थं तिलानाम्भिप्राय दद्याद्वै सदक्षिणं सवस्त्रं च सर्वपापविमुक्तये माधव सर्वभूतात्मा सर्वकर्मफलप्रदः तिलदानेन महदात् सर्वान् कामान् प्रयच्छतु मन्त्रेणानेन विप्राय दत्त्वा भक्तिसमन्विदः ब्राह्मणान् भोजये चक्रिया संस्मरन् माधवं प्रभुम् एवं ह्यः कुरु दे भक्त्या तिलदाने व्रतं मुने वाजपेय शदस्यासौ सम्पूर्णं फलमाप्नुयाद फाल्गुनस्य सिदे पक्षे द्वादश्यां पूर्वमानेन पयसा गोविन्दम् स्नापयेत् शुचिः रात्रौ जागरणम् कुर्यात्रिकालम् पूजयेत् तथा प्राधकृत्यम् समाप्याध गोविन्दम् पूजयेत्पुनः व्रीह्याठकं च विप्राय दद्याद्वस्त्रं स दक्षिणं नमो गोविन्द सर्वेश गोपिका जनवल्लभ अनेन धान्यदानेन प्रीदो भवजगद्गुरो एवं कृत्वा व्रतं सम्यक् सर्वपापविवर्जितः गोमेधमखजं पुण्यं सम्पूर्णं लभते नरः चैत्रमासे सिदे पक्षे द्वादश्यां समुपोषितः नमोस्तु विष्णवे तुभ्यमिति पूर्ववदर्चयेद् क्षीरेण स्नापयेद्विष्णुं पूर्वमानेन शकृदः तथैव स्नापयेद्विप्रकृतप्रस्थेन सादरं कृत्वा जागरणं रात्रौ पूजयेत्पूर्ववद्वृदी ततः कल्ये समुद्धाय प्रादकृत्यं समाप्य च अष्टोत्तरशतं भूत्वा मध्वाज्यतिलमिश्रितम् सदक्षिणं च विप्राय दद्याद्वै तण्डुलाठकं प्राणरूपी महाविष्णुप्राणाधः सर्ववल्लभः तण्डुलाठकदानेन प्रीयतां मम जनार्दनः एवं कृत्वा नरो भक्त्या सर्वपापविवर्जितः अत्यङ्गिष्ठो मयज्ञस्य फलमष्टगुणं लभेद वैशाखशुक्लद्वादश्यामुपोष्य मधुसूदनं द्रोणक्षीरेण देवेशं स्नापयेद्भक्तिसंयुधः जागरं तत्र कर्तव्यं त्रिकालार्चनसंयुधम् नमस्ते मधुहन्द्रेजिहुयाचक्रितोघृतम् अष्टोत्तरशतं प्रोच्य विधिवन्मधुसूदनम् विपापो ह्यश्वमेधानामष्टानां फलमाप्नुयाद ज्येष्ठमासे शिरे पक्षे द्वादश्यामुपवासकृद क्षीरेणाटकमानेन स्नापयेद्यस्त्रिविक्तमं नमस्त्रिविक्त मायेदि पूजयेद्भक्तिसंयुगः जुहूयात्पायसेनैव ह्यष्टोत्तरशताहुदिः कृत्वा जागरणं रात्रौ पुनः पूजां प्रकल्पयेद् अपूपविंशतिं दत्त्वा ब्राह्मणाय स दक्षिणं देवदेवजगन्नादप्रसीदपरमेश्वर उपायनं सङ्गृह्य ममाभीष्टप्रदो भव ब्राह्मणान् भोजयचक्रिया स्वयं भुञ्जीदवाग्यदः एवं य कुरुदेवीप्रव्रतं त्रैविक्रमं परं सोष्ठानां नरमेधानां विपापफलमाप्नुयाद आषाढशुक्लद्वादश्यामुपवासी जितेन्द्रियः वामनं पूर्वमानेन स्नापयेत् पयसा नमस्ते वामना येदि दूर्वाज्याष्टोत्तरं शतं हुत्वा च जागरं कुर्याद्वामनं चार्चयेत्पुनः स दाक्षिणं च दध्यन्नं नालिकेरफलान्वितं भक्त्या प्रदद्याद्विप्राय वामनार्चन शीलिने वामनो वृद्धितो होदा द्रव्यष्टो वामनः सदा वामनस्तारकोऽस्मा च वामनाय नमो नमः अनेन दत्वादध्यन्नं शकृतो भोजयेद्विजान् कृत्वैवमगृष्ठो मानां सदस्य फलमाप्नुयाद श्रावणस्य सिदे पक्षे द्वादश्यामुपवासकृद क्षीरेण मधुमिश्रेण स्नापयेत् श्रीधरं व्रदी नमोऽस्तु श्रीधरा यदि गन्धाध्यैः पूजयेत्क्रमाद जिहुयात्पृषदाज्ञेन शतमष्टोत्तरं मुने कृत्वा जागरं रात्रौ पुनः पूजां प्रकल्पयेद् दातव्यं चैव विप्राय क्षीराटकमनुत्तमम् दक्षिणां च स वस्त्रां वै प्रदद्याध्येमकुण्डले मन्त्रेणानेन विप्रेन्दु सर्वकामाश्रसिद्धये क्षीराब्धिशायिन् देवेश्वरमाकान्तजगत्पदे क्षीरदानेन सुप्रीतो भव सर्वसुखप्रदः सुखप्रदत्वाद्विप्रांश्च भोजये चक्रिदोव्रती एव कृत्वा स्वमेधानां सहस्रस्य फलं लभेद् मास्ति भाद्रपदे शुक्ले द्वादश्यां समुपोषितः स्नापये द्रोणपयः सा कृषिकेशं जगद्गुरुम् कृषिकेश नमस्तुभ्यमिति सम्पूजयेन्नरः चरुणा मधुयुक्तेन शतमष्टोत्तरं हुनेद जागरादीनि निर्वर्त्य दद्यादात्मविदेतदः सार्थाटकं च गोधूमान् दक्षिणां हेमशकृतः ऋषिकेशनमस्तुभ्यं सर्वलोकैकहे दवे मह्यं सर्वसुखं देहि गोधूमस्य प्रदानदः भोजयेत् ब्राह्माञ्चक्रिया स्वयं चाश्रीदवाग्यदः सर्वपापविनिर्मुक्तो ब्रह्ममेधफलं लभेद आश्विने शुक्लायां द्वादश्यां समुपोषितः पद्मनाभं च पयसा स्नापयेद्भक्तिदशुचिः नमस्ते पद्मनाभाय होमं कुर्यात् स्वचक्रिदः लब्रीही य वाज्यैश्च पूजये च विधानदः जामरं निशि निर्वर्त्य पुनः पूजां समाचरेद दद्याद्भिप्रायगुडवं मधुनस्तु सदक्षिणं पद्मनाभनमस्तुभ्यं सर्वलोकपितामह मधुदानेन सुप्रीदो भव सर्वसुखप्रदः येवं ह्यः कुरु दे भक्त्या पद्मनाभव्रतं सुधीः ब्रह्ममेधसहस्रस्य फलमाप्नोदि निश्चितं द्वादश्यां कार्तिके शुक्ले उपवासी जितेन्द्रियः क्षीरेणाकटकमानेन दन्तवाज्येन तावता नमो दामोदराय दिस्नापयेद्भक्त्रिभावदः अष्टोत्तरशतं भूत्वा मुवाज्याक्रतिलाहुदीः जागरं नियदकुर्या त्रिकालार्चन तत्परः प्रादसम्पूजये देवं पद्मपुष्पैर्मनोरमैः पुनरष्टोत्तरशतं जुहुयात्सकृदाय स्थिलैः पञ्च भक्ष्ययुधम् चान्नम् दद्याद्विप्रायभक्तिदः दा दामोदरजगन्नाथसर्वकारणकारण दा प्रागिमाम् कृपया देव शारणागदपालकः अनेन दत्त्वा दानम् च श्रोत्रियाय गुडुम्बिने दक्षिणाम् च यथाशक्त्या ब्राह्मणाम् चापि भोजयेद एवं कृत्वा व्रतं साम्यग श्रीयाद्बन्धुभिः सह अश्वमेकसहस्राणां द्विगुणं फलमश्नुते एवं कुर्याद्व्रतीयस्तु द्वादशी व्रतमुत्तमं संवत्सरमुनिश्रेष्ठ स यादि परमं पदम् एकमासे द्विमासे वायकुर्याद्भक्ति तत्परः तत्तद्फलमवाप्नोति प्राप्नोति च हरेः पदम् कोव संवत्सरं कृत्वा कुर्यादुद्यापनं प्रति मार्गशीर्षाश्रिते पक्षे द्वादश्यां च मुनीश्वर स्नात्वा र्यथाचारं दन्तधावनपूर्वकम् शुक्लं माल्याम्बरधर शुक्लगन्धानुलेपनः मण्डपम् कारय दिव्यम् चतुरस्त्रम् सुशोभनम् खण्डाचामरसं युक्तम् किङ्गिणीरवशोभितम् अलङ्कृतम् पुष्पमाल्यैर्विदानक्व जराजितान् चादिदम् शुक्लवस्त्रेण दीपमाला विभूषितम् तन्मध्ये सर्वतो भद्रं कुर्यात् सम्यगलङ्कृतं तस्योपरि न्यस्येत् कुम्भान् द्वादशाम्बुप्रपूरितान् एकेन शुक्लवस्त्रेण सम्यक् संशोधितेन च कुम्भान् पञ्चरत्नसमन्वितान् लक्ष्मीनारायणं देवं कारयेद्भक्तिमान् बृधि व्रदि न वा रचतेनापि तथा तम्रेण वा द्विज स्थापयेत् प्रतिमां तां च कुम्भोपरि सुसंयमी तन्मूल्यं वा द्विजश्रेष्ठ च स्वशक्रिदः सर्वव्रतेषु मातीमान् वित्तषाढ्यं विवर्जयेद यदि कुर्यात्क्षयं यान्ति तस्यायोर्धनसम्पदः अनन्तशायिनं देवं नारायणमनामयं पञ्चामृतेन प्रथमं स्नापयेत् भक्तिसंयुदः नामभिकेशवाद्यैश्च ह्युपचाराः प्रकल्पयेत् त्रौ जागरणं कुर्यात् पुराणश्रवणादिभिः जिदनिद्रो भवेत् सम्यक् सोपवासो जितेन्द्रियः त्रिकालमर्चयेद्देवं यथा विभवविष्टरं तदप्रादसमुद्धाय प्रादकृत्यं समाप्य च तिलकोमान् व्याकृतिभिः सहस्रं कार्ये द्विजैः तद सम्पूजयेद्देवं गन्धपुष्पादिभिक्रमाद देवस्य पुरदकुर्यात् पुराणश्रवणं तदः द या द्वादशविप्रभ्यो दध्यन्नं पायसं तथा अपू पैर्दशभिर्युक्तं सकृतं च सदक्षिणं देवदेव जगन्नाथभक्तानुग्रहविग्रह गृहाणोपायनं कृष्णसर्वाभीष्टप्रदो भव अनेनोपायनं दत्त्वा प्रार्थये माञ्जलिस्थितः आधाय जानुनी भूमौ विनया वननतोव्रधी नमो नमस्ते सुरराजराज नमोऽस्तु दे देवं जगन्निवास पुरुष्व सम्पूर्णफलं ममाद्य नमोऽस्तु तुभ्यं पुरुषोत्तमाय यदि सम्प्रार्थयेद्विप्रान्देवं च पुरुषोत्तमं दध्यादार्क्यं च देवाय महालक्ष्मीयुताय वै लक्ष्मीपदे नमस्तुभ्यं क्षीरार्णवनिवासिने अर्क्यं गृहाण देवेश लक्ष्म्या च सहितप्रक्षो यस्य स्मृत्या च नामोक्त्या तपो यज्ञक्रियादिषु न्यूनं सम्पूर्णतां व्याधि सद्यो वन्दे तमच्युदम् यदि विज्ञाप्य देवेश्यं तत्सर्वं संयमीव्रते प्रदिमां दक्षिणाय उक्तामाचार्याय निवेदयेद् ब्राह्मणान् भोजयेत् पश्चात् शक्त्या दद्या च दक्षिणां भुञ्जेद वाग्यध स्वयं बन्धुजनैर्वृदः आसायम् हृदु याद्विष्णो कथं विद्वज्जनैः सह इत्येवं गुरुदे यस्तु मनुजो द्वादशी व्रतं सर्वान् कामान् सहान् बोधि परत्रे सजनारद त्रे सूलसंयुक्तः सर्वपापविवर्जितः तपादि विष्णुभवनं यत्र यत्त्वा न य इदं शृणुया द्वि प्रद्वादशी व्रतमुत्तमं वाचये स नरो वाचपेयफलं लभेध इति श्रीबृहन्नारदपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मार्गशेष शुक्लद्वादशीव्रतकथनं नाम सत्पद ोऽध्यायः सप्तदशोऽध्यायः ओम्